यदा श्रौषम् द्रोणमाचार्यमेकम् धृष्ट द्युम्नेनाभ्यतिक्रम्य धर्मम् रथोपस्थे प्राय गतम् विशस्तम् तदा नाशंसे यदा श्रौषम् द्रोणिना द्वैरथस्थम् माद्री सुतम् नकुलम् लोक मध्ये समम् युद्धे मण्डलेभ्यश्चरन्तम् यदा द्रोणे निहते द्रोण पुत्रो नारायणम् दिव्यमस्त्रम् विकुर्वन् गतवान् पाण्डवानाम् तदा नाशंसे विजयाय यदा श्रौषम् भीमसेनेन पीतम् रक्तं भ्रातुर्युधि दुःशासनस्य निवारितम् नान्यतमेन भीमम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् कण्डमत्यन्त शूरम् हतम् तस्मिन् भ्रातॄणाम् विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्रोण पुत्रञ्च शूरम् दुःशासनम् कृत वर्माणमुग्रम् युधिष्ठिरम् धर्मराजम् जयन्तम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् निहतम् मध्रराजम् रणे शूरम् धर्मराजेन सूत सदा सङ्ग्रामे स्पर्धते यस्तु कृष्णम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कलह द्यूतमूलम् मायाबलम् सौबलम् पाण्डवेन हतम् सङ्ग्रामे सह देवेन पापम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् श्रान्तमेकम् शयानम् हृदम् गत्वा स्तम्भयित्वा तदम्भ दुर्योधनम् विरथम् यदाश्रौषम् पाण्डवान् स्तिष्ठमानान् गत्वा हृदे वासुदेवेन सार्धम् अमर्शनम् धर्शयतः सुतम् मे तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् विविधाश्चित्र मार्गान् गदा युद्धे मण्डलशश्चरन्तम् मिथ्याहदम् वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् द्रोण पुत्रादभिस्तैर्हतान् पञ्चालान् द्रौपदेयाञ्च सुप्तान् कृतम् बीभत् समय शस्यञ्च यदा श्रौषम् भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रम् प्रयुक्तम् क्रुद्धेनैशीकमवधीत्येन गर्भम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् ब्रह्म शिरोऽर्जुनेन स्वस्तीत्युक्त्वा स्त्रमस्त्रेण शोच्या गांधारी पुत्र पौत्रैर्विहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च कृतम् कार्यम् दुष्करम् पाण्डवे यैः प्राप्तम् राज्यमसपत्नम् पुनस्तैः कष्टम् युद्धे दश शेषाः श्रुतामे त्रयोऽस्माकम् पाण्डवानाञ्च सप्त द्व्यूनाविंशति राहताक्षौहिणीनाम् तस्मिन् सङ्ग्रामे भैरवे क्षत्रियाणाम् समस्ततीव विस्तीर्णम् मोह आविशतीव माम् सञ्ज्ञाम् नोपलभे सूत मनो विह्वलतीव धृतराष्ट्र उवाच सञ्जयैवम् गते प्राणाम् त्यक्तुमिच्छामि माचिरम् स्तोकम् ह्यपि निःश्वसन्तम् यथानागम् मुह्यमानम् पुनः पुनः गावल् गणिरिदम् धीमान् महार्थं वाक्यमब्रवीत् सञ्जय उवाच श्रुतवानसि वै राजन् महोत्साहान् महाबलान् द्वैपायनस्य वदतो नारदस्य त धीमतः महत्सु च जातान् दिव्यास्त्रविदुषः धर्मेण पृथिवीम् जित्वा यज्ञैरिष्ट्वाप्त अस्मिन् लोके यशः गतान् शैव्यम् महारथम् वीरं सृञ्जयम् जयताम् वरम् सुहोत्रम् रन्ति देवञ्च काक्षी वन्तमथौक्षिजम् वाह्लीकम् दमनम् चैद्यम् शर्याति मजितम् नलम् विश्वामित्रममित्रघ्नम् अम्बरीशम् महाबलम् मरुत्तम् मनुमिक्ष्वाकुम् गयम् भरतमेव च रामम् दाशरथिम् चैव शशविन्दुम् भगीरथम् तथैव जनमेजयम् ययातिम् शुभ देवैर्यो याजित चैत्ययूपाङ्किता सवनाकरा सवनाकर इति राज्ञाम् चतुर्विंशन्नाारदेन सुरर्षिणा पुत्रशोकाभितप्ताय पुराश्वैत्याय कीर्तितम्